मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं तर्टि टु एकदन्तचरितमाहात्म्यवर्णनं सूत उवाच पिप्पलादः पुरा कश्चिद् बभूव ब्राह्मणोत्तमः सशैवमार्गसंयुक्तो भजत्तं शङ्करं सदा गौतमी धीरः क्रमदो योगसंस्थितः बभूव सहजे संस्थस्वाधीनत्वपरायणः तदो वेदार्थजं योगं ज्ञात्वा शान्तिधरं परं सहजं मोहीनं तत् दृष्ट्वा जगामगौतमं विप्रो भक्तिसंयुध आनमद पप्र च योगशान्त्यर्थमुपायं ब्रह्मदम् परं जगादगौदमो विप्रं स पृष्ठश्चैकदन्तकम् ब्रह्म तस्यैव भक्रिया तं शान्ति योगमवाप्स्यसि यद्यन्मायाविकारैश्च संयुक्तं मुनिसत्तमायया सह सद्विद्धि एक शब्दप्रवाचकं मायाहीनं स्थितं यत्तन्मायिकं वा द्विजोत्तमं दन्तसंज्ञं विजानीहि पश्य वेदे विचक्षणात् तयोर्योगे गणेशान् एकदन्त इति श्रुतः तं भज स्वविधानेन शान्तियुक्तो भविष्यसि एवमुक्त्वा महायोगी गौधमो विररामः महा, पिप्पलादश्च सन्नम्य ययौ स्वास्याश्रमं परं ततस्तच्चैकदन्तं सोभजद्भक्तिसमन्वितः गणेशकृपया विप्रो योगशान्तियुदो भवद ततो नित्यमहाविप्रयेकदन्तचरित्रकम् अपठ मौद्गले गणपत्यस्वभावतः कस्मिंश्चित्समये योगी पूजयित्वैकदन्तकम् अपठच्चरितं तस्य तत्सान्निध्ये सुभकृतः तत्रपल्ली स्थिता काचित् सा शुश्रावचरित्रकं ज्वरयुक्ता महाभागज्वरहीना बभूवः देहान्तगणनाथं तु जगाम चरितस्रवाद तं दृष्ट्वा ब्रह्मभूता सा बभूवे चित्रमद्भुतम् एवमेकरदस्यैव चरितस्य जसेवने श्रवणेन नरा नार्यो ब्रह्मीभूता बभूविरे तेषां न शक्यते वक्तुं चरितं केनचिन्मुने अधत्सङ्क्षेपदप्रोक्तम् सर्वसिद्धिप्रदायकम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे नवमे खण्डे योगचरिते योगामृदार्थशास्त्रे दक्षमुद्गलसंवादे ये गदन्तचरितमाहात्म्यवर्णनं ओ um...